ोम्या सः सखायः सुन्दन्ति स वन् दधा प्रजांसि तिरीक्षन्ते अभिषस्तिम् जनारामिम्पदा कश्चन हि प्राकेतः ते दूनेपरमाचिद्रजां स्यातु प्रजाहि हरिभो हरिभ्याम् स्थिराजकृष्णे समानाकृते मा युङ्गाग्रावाणः स्वमिधाने अग्नौ इन्द्रः सुशिप्रा मघपातरुत्रा महाम्रातस्तु विको निर्घावानिग्रोधाभार्त्येषुप्ता ते वृडभवीजानि त्वम् यक्ष्माच्चावयन्यच्यूतान्येको दृत्रादरसि जिघ्रमाणः ृथिवी पर्व दासोऽनुव्रता जगिमि ते वदस्थुः उता भाजे गुरुः दश्रवोऽभिरेको दृढमावदो रहासन् ये चेन्द्ररोदासी अपारे यत्सम् गृभ्रामाघवम् दाशिरित्ते प्रसूता इन्द्रप्रवता हरिभ्याम् प्रते वज्रः प्रभृणन्ने जहि प्रातीचो अनूजः पराजो विश्वम् विष्टमस्तु। क्रीडिहिष्ठमस्तु यस्मैभाजुरधा दामर्त्याजा भक्तम् यद्भज गेह्याः भद्राद इन्द्रसुमतिर्घृताजे सहस्रादा पुरुहोदरादिः सहदानम् पुरुहोदक्षियन्तमहस्तविन्द्रसम्पि नः कुनानुम् अभिनृत्यम् वर्धमानम् प्रियानुमपादमिन्द्रतमसा जगन्थ निशामी शिरामिन्द्रभूमिम् महीमपालांस चे सत्स अस्तभ्राद्याम् वृषभो अन्तरिक्षमर्षन्दापस्तयेह प्रसूताः सुगान् पथो आगणोन्यरदेकाः प्रामन्वाणीः पुरोतम् धमन्धीः एको द्वेव सुमते सबीजे इन्द्रावप्रोपृथिवीमुद्या उदरान्तरिक्षादभिनः समेकयिशो रदे शैलस्सुरमाजान् दिशसूर्योगमेनादिप्रतिष्ठाधिकय दीपे हर्यस्वप्रसूताः संयदानलध्वान आदितस्वेर्विमोचनम् गृह्णते तत्त्वस्य ऋन्दतो यामन्नक्तोर्विहस्वत्यामही चित्तमयीयम् विश्वेजानीलायजागादिन्द्रस्य कर्म सुकृता गूणि मयुज्यो निर्निहीतम् रक्षणा स्वामा भक्पम् च रतिबिभ्रतीगौ स्वाम् स्वात्मसंहृतमुस्त्रियाम् यत्सीमिन्द्रो अदधानाय इन्द्रगृह्यायामकोशान् यज्ञाय शिक्षगृहदे सखिभ्यः दुर्मायवो दुरेपामत्या सो निषङ्गिनो रिपमो हन्त्वा सह सङ्घोर शृण्वे मैरमित्रैर्जैन्येष्वसनिन्दपिष्ठा निश्चे मधस्तारुदासगस्व जहि रक्षो मघवन् रन्द्रजस्व उद्भ्रेहरक्षः सहमूलमिन्द्रभिश्च मध्यम् प्रत्यग्रम् शृणीः आजेव तस्व लोकम् जगत्क्ष ब्रह्म द्विषे तोषिम्भे निमस्य स्वस्तजेः वाजिभिश्च प्रणेतः सैयन्महीरिष आसत्सि आयो यो वन्दारो बृहदस्यास्मे अस्तु भग इन्द्र प्रजावान् आनोभरभगमिन्द्रद्युमन्तम् निदेष्णस्य धीमहि प्रवेके पूर्वजैव वप्रथे कामो अस्मेतमाप्रेण वसुपते वसूनाम् इमम् कामम् मन्दयागोधिरस्वैश्चन्द्रवदाराधसा वप्रथश्च स्वर्यवो मतिभिस्त्वभ्यम् यत्प्राजिन्द्रायवाहत्कुशिकासो अक्रन् आनो गोत्राद्रिहि गोपदेगाः समस्मभ्यम् समयोजन्तु वाजाः दिवक्षा असि वृषभ च दुष्मोऽस्मभ्यम् सुमाघवन् बोधि गोदाः सुनम् भूवे ममघवानमिन्द्रमस्मिन् भरे तम् वाज शृण्वन्तमुग्रमूतये समत्सुभ्रन्तम् वृत्नाणि सञ्जितम् धनाना सा सद्वन्निर्दुहितम् नत्यङ्गा द्विद्वादस्य लीधीतम् स पर्यन् निता यत्र दुहितस्यैकमृञ्जान् संसर्गे रमण सादधन्वे जामजेतान्वा रिक्समारैश्चकारगर्भम् स निदम् निधानम् यदि मातरो जनयन् दवह्निमन्यः कर्ता सुकृतो रन्यन्ध्रन् अग्निर्जज्ञे जुह्वा आरेजमानो मनस्पुत्रा रुडस्य प्रयक्षे महाम् गर्भो मह्याजातमेषा मही प्रवृद्धर्यः स्वस्वयज्ञैः अभिजैत्रे रसनन्दस्मृधानम् महिज्योतिस्तमसो निराजानन् सञ्जानतीः प्रत्युदायन् नृषा सत्पधिर्गमामभवदे गजिन्द्राः वीणौषदेरभिधीरा अदृन्दन् राजाहिन् मन्मनासा सप्तविप्राः विश्वाहमविन्दन् बत्थ्याः मृगस्य प्रजानन् विच्छानमसा वीवेश विनद्यति शरमा रुग्लवद्रेर्म हि पासपूर्वम् सध्यः अनुग्रम् यः सुपध्यक्षरा नामच्छारमम् प्रसमाजा नदीगात् अगच्छदु विप्रथमस्य हीयन्न सुहृदयगद्भवद्रीः ससा रमर्जो दिवभिर्म कस्यन्न भवदीराः सद्यो अर्चन् सदःप्रदिमानम् पुरोभूर्विश्वादज निमाहन्ति सुष्णम् वृणो दिवः पादवीर्द्रव्युरर्चन् सघासखीन्द्रमुन्निरब्यात् यदा मनासा चेदरर्पैकम् वानासो अमृतत्वाय गातुम् इदम् चिन्नसदम्भूर्येषाम् येन मासाम् अशेषासम् कृतेन रम्पश्यमानामदन्नभिस्वम् पज प्रत्नस्य निरोदसी अतपद्घोषा येषाम् जाते निष्ठामदुर्घोषो वीरान् स जातेभिर्वृत्नहासेदु हव्यैरुदुश्रिया अश्रिन्द्रो अर्त्रैः पुरोच्यस्मै घृतवद्भरन्ति स्वात्मदुदुजेन्यागौ पित्रे चक्रः सदनम् तव स्मै महि द्विषये मः विष्कभ्रन्दस्कम्भनेनाजनित्री आसीनाभूर्ध्वम् रभसम् विमिन्वन् मयि यदि धिषणासि स्मचेधात् सद्यो गृहम् विद्वा अम्रोदस्योः गिरो यस्मिन्ननवद्याः स नेचेर्विश्वा इन्द्रायदवेशीरनुत्ताः मह्या ते सख्यम् भस्मि शक्ति यावृत्रघ्ने नियुतो यन्ति पूर्वीः मयि सोत्रमवागन् म सूरैरस्माकम् सुमाघवन् बोधि गोपाः मयि क्षेत्रम् पुरश्चन्द्रम् विभिद्वादिसहेभ्यः शरदमसमैरत् गातुमग्निम् अपरश्चेदेत बिभो ओ नमो नाप्रसद्धीरसृद्विश्वश्चन्द्राः मध्वः पुनाः कविभिः पवित्रे रद्युभिर्विहिन्त्यक्तभिर्धनत्रीः अनु कृष्णे वसूधिते निगाते उभे सूर्गस्य परियत्ते महिमानम् रजध्यै सखायैन्द्रकाम्या ऋजित्याः पतिर्भवृत्रहान् सोमृतानाम् गिराम् विश्वाजुर्वृषभो वयोधाः आनोदै सख्ये भिः शिवेभिर्महान् महीभिरुतिभिः सरण्यन् अमङ्गिरस्मन्नमसा स पर्यन्नव्यम् कृणोऽपि सन्न्यासे पुराजायि बहुना देभिः स्वस्य नो मघवान् सादये धाः निह पापगा प्रदाता अभूवन् स्वस्तिनः प्यबिरिः पालमासा इन्द्र त्वम् वचिरः पाहिनो मक्षो मक्षो गृणिः गोजितो अदे दिष्टवृत्रा गोप दुर्गा अन्तः कृष्णा ऋषैर्धाम दुर्गाज रजो नृता दिशमान हृते न तु नश्च विश्वा अवृणोतमस्वाः सुरम्भूवेमघवानमिन्द्रमस्मिन् भरे शृण्वन्तमुद्रमूदये समत्स गृहन्तम् रत्राणि सञ्चितम् धनाना इन्द्रोमम् सोमपतेऽपि प्रेमम् माध्यन्दिनम् समानम् चारु यत्तेच्छासि प्रेमघवण्डिमुच्चाहरीहमादयस्व गवाशिरम् मन्थिनमिन्द्रशुक्रम् विभा सोमम् रमादे मदाय ब्रह्मकृता मारुतेन घनेन सजोढाः रुद्रैः श्रिपदा व्रेशस्व ये ते सृष्टम् ये तविक्षीमवर्धनच्छम् द इन्द्रमरुतस्तवोजाः माध्यम् दिने समाने वज्रहस्तपिबा रुद्रेभिः येभिर्वृत्रस्येषित विवेदा मर्म नो मन्यमानस्य मर्म मनश्वदिन्द्रवानम् जषा निभासो मंसस्व ते वीर्याय स तावत्स्वहर्यस्व जङ्के स रञ्जुभिरपो हर्णासि सर्षि त्वमो यद्ध वृत्रम् जघन्वा यानमिन्द्रतरतावधेन बभ्रिमाम् सम्परि देवीरदेवम् यजाभयम् नमासा वृद्धमिन्द्रम् मृहन्त विष्णमजरम् युवानम् यस्य प्रिये मम दुर्यज्ञयस्य नरोदसेवमानम् ममाते इन्द्रस्य कर्म सुगृता बलूणि वृतानि देवान मीनन्ति विश्वे राधा रजः प्रीथिवीन्द्यामुते जा माम् जानसूर्यामुषसं सुदंसाः अद्रोघसत्यम् तव तन्म हि त्वम् सद्यो यज्जातो अपि गो ह सोमम् नद्याव इन्द्रतमसस्तवो जो नाह नमासाः शरदो वरन्त त्वम् सद्यो वि वो जातयन्द्रमधायसोमम् धद्या वा पृथिवी आवी वेशी रथा भवः कूर्यः कारुधायाः भोजायमानम् तु विजातम् न देवहि त्वमनुभूत दद्योर्यधन्यया यज्ञो हित इन्द्रबद्ध नो भूदुतो प्रियः श्रुतसो लोमोभिषेधाः यज्ञेन यज्ञमापजज्ञयः सन् यज्ञश्चैवज्रमहिहत्य आवत् यज्ञेनेन्द्रमपसा चक्षे अर्वागीयम् सुम्ना जनम् च सेव वृत्त्या यः स्वो मे भर्वा निम्बेषमाधिरणा जगानस्तवैः पुरापार्यादिन्द्रमह्नाः अम्भसो यत्र पीपरज्जसानो नामे मयान्तमुभये हवन्ते आपूर्णो अस्य कलस स्वाहासे बकोशंसि चेऽपि बध्ये समुप्रिया वृद्धन्मदा जक्षिरभिलोमास इन्द्रम् नत्वा गभीरः पूर्वहो तसिन् धर्माद्रजः परिषन्तो वरन्त मिथ्यासखेभ्य इषितो यदिन्द्रा दृढम् च तरु जोगव्यमूर्वम् श्रृम्भुवेमघवानमिन्द्रमस्मिन्फरे त मम वाच सातौ शृण्वन्त मुग्रमूतये समत्सुघ्नन्तम् वृत्राणि सञ्चितम् धनानाम् पर्वतानामु सति उपस्थादस्मेजि भविष्यते हासमाने गानेव शुभ्रे मातरा लिहाने विपाक्षरुद्रीपयसा जमेते इन्द्रे प्रसमम् भिक्षमाणे अच्छा समुद्रम् रथ्ये मातः समाराणे वूर्मिभक् पिन्बमाने अन्या वामन्यामप्येति शुभ्रे अच्छासिन्धुम् मातृता मामजा संविपासमुर्वीम् सुभगामगन्म मत्समीव मातरा संविधाने स मानम् योनिमनु सञ्चरन्ति येना भयम् बलसा पिन्व माना अनुयोनिम् एव कृतञ्चरन्ति न वर्त मे प्रसवः सर्गदत्तः कियुर्विप्रो नद्यो जोहमीति रमध्वम् वेम च सोम्या जरुता वरीरुपमुहूर्तमेवैः रसन्ध्वमच्छा बृहति मीषामस्य रक्ष्मे कुशिकस्य सूनुः हिरो अस्मा रदवज्रबाहुरपाहन्भद्रम् पारिधिम् नदीनाम् देवो रगत्स पितासु पाणिस्तस्य भयम् प्रसवेयामभुर्वेः च्यम् स्वीर्या अन्तलिङ्गस्य कर्म यदहिम् विभ्रश्चत् निवज्रेरवरिणदोजघानायन्ना भोजनमिच्छमानाः ये जनितन्माभि भ्रष्टाः आयत्ते घोषानुत्तराजुगामि मुख्येषु कालो भ्रदोजुस्वमानोऽकः पुरुषत्रा नमस्ते ोढस्व सारः कालवे शृणोत ययौ वो दूरादन सारथेन निषू न मध्वम् भवता सु पाराधो अक्षासिन्धव श्रोत्याभिः आदेकालो शृणवा मा पचांसि ययाथ दूरादन सारथेन ंसै्याने वयोषामर्यायेव कन्या स स्वतैते यदम् गत्वा भरता सन्तरे दुर्घव्यम् ग्राम युष इन्द्रसूतः अर्षादः प्रसवः सर्गसर्गावो वृणेषु पतिम् जिज्ञानाम् हताभरताजवसमभक्तविप्रस्तुपतिम् नदीनाम् कपिन्वध्वजयन्ते सुनाधा भक्षणा प्रणध्वम् जातशीभम् उद्वभूर्मिः सन्न्याहन्त्वा भोजोऽत्राणि मुञ्चत मा दुष्कृतो येन सा ज्ञौ नारदा इन्द्रः पूर्भिद्दमर्कैर्विदद्वा ब्रह्मज्योदस्तन्वा वावृधानो भूरि दात्रावृरद्रोदसी उभे मखस्य देतभेस्य प्रज्योतिवियम् निमाजमनुता जभूषण्न्द्रक्षिते नामसि मानुषीणाम् विशाम् इन्द्रो वृत्तमावृणोच्छर्दानी जत्प्रमाजिना ममिनाद्वर्पाणीजिः अम् समुसधर्मनेष्वाविद्धेनावृणोद्राम्यानाम् इन्द्रः स्वर्णाजनजन्महारियाजोषभ्यः प्रदाना अभीष्टिः प्रारोजन्म इन्द्रस्तु च बर्हणाविवेशनृमद्दधा नो लल्याः गुरूणि हतेदयद्धिय इमाजरित्रे प्रेमम् वर्णमदिरच्छुक्रमासा महो महानि बलयन्तस्येन्द्रस्य कर्म सुगृहीता गुरूणि संविवेडमाजाभिरुदस्योङ्ग्रविभोद्योजाः युजेन्द्रा मह्नामलिवश्च काल देवेभ्यः सत्तादिश्चर्ष निप्राः विभस्व दस्य दाने अस्य दानिप्रा भुक्तेभिः कवयो गृह्णन्ति सत्रासाहम्बरेण्यम् स होदाम् सवांसां स्वरवश्च देवी प्रेथिवेन्द्या सदानाद्याम् उत सूर्यम् ददानेन्द्रः सदान पुरुभोज सङ्गा इरङ्गयमुत भोजम् ददान हे तस्योन्प्रार्यम् वर्णा मावत् इन्द्रवोढ धीरस नोदः निवनस्पतीन्द्रस नोदन्तरिक्षम् विभेद बलम् नु नु देवि वाचोधा भवद्दमिताभिक्रतूनाम् सुरम्भूवेमघवानमिन्द्रमस्मिन् भरे ऋत वं वाजसातौ शृण्वन्त मुग्रमूतये समत्सुभ्रन्तम् वृत्राणि सञ्चितम् धराणाम् केष्ठा ह नीरथा युज्यमानाजाहि वायोर्न निजितो नो अस्मे पूर्वभूता यीरथस्य धूष्वायो नज्मि राजथासम्भृतम् विश्वतश्चिदुपेमम् यज्ञमावाह द इन्द्रम् उपो नयस्वमृषनाथपुष्पो ते मापत्त्वम् वृषभः स्वधावः गते तामस्वामिमूचेहसो नादिवे दिवे, दिवे ब्रह्मानाथे ब्रह्म युजायुलज्विहरी सुखायास धमाद आशु स्थिरम् रथम् सुखमिन्दाभितिष्ठन् प्रजालन् विद्वा उपायाहि सोमम् माते हरीनृढानाभीतपृष्ठा निरेरमण्यजमानासो अन्ये त्यायाहिशतो भयम् तेरम् सुतेभिः कृणवा मसोमैः तयम् सोमस्त्वमे जर्वाम् सस्वत्तमम् सुमना अस्य पाहि अस्मिन् यज्ञे बर्हिष्यारिषद्या दधिष्वेवम् जठ रयिन्दुरिन्द्र स्थीर्णन्ते बर्हि सुतयितोमस्कृता धाना हरिभ्याम् अतो गजे पुरुषागाजकृष्णे मरुत्वा चेतुभ्यम् राताहमींषि इमम् नरः पर्वतास्तुभ्यमापस्समिन् रगोभिर्मधुमन्दमक्रन् तस्यागत्या सुमला ऋश्व प्रधानम् विद्वान् अथ्या आ रुता इन्द्रसो मेये त्वामवर्धन्न भगवन् गणस्ते ते भेदेतम् सजोडा वावसानो ओग्नेपि जिह्या सोमामिन्द्र इन्द्र पिवस्वधयाजस्रुतस्याग्नेर्वा अर्धर्जोर्वा <Suckra> प्रयातम् सक्रहस्ताद्धो दर्वा जैत्यम् मविडो जुडस्व सुरङ्गो वेवमघवा नवीन्द्रमस्मिन् भरे नृतमम्बाज सातौ शृण्वन्त मुग्रमोदये समत्सुघ्नन्तम् वृद्राणि श्रुते सुदेव वृधे वर्धनेभिर्यः कर्मभिर्महद्भिः श्वश्रूतोऽभूत् इन्द्राजो वा प्रतिभो विदाृहपर्वाभिहायम् जमा नान् प्रति श्रोग्रे भाजेन्द्रपितमृगतस्य कृष्णाः पावर्धस्व तव घासुता स इन्द्रो वा स प्रथमा कृते मे यथा वेगः पूर्या इन्द्रोमा एवाहि पन्योः अद्यानवीयान् महामत्र भृजने विरप्स्यु उग्रम् समुत्पद्यते धृष्मोजाः नाराविव्याज पृथिवेतनैरम् यत्सोमा सौहर्य स्वमन्दन् माम् उग्रो वा मृहे वीर्याय समाचक्रे वृषभक्काव्येन इन्द्रो भो वा जदा अस्य गावक्रजायन्ते दक्षिणा अस्य पूर्वीः प्रयत्सिन्धवक्त्रसाञ्जसा जन्नापःस्सभुद्रम् अदस्ति लिङ्गी याङ्गीम् सोमः प्रणति दुग्ध अंसुः समुद्रेण सिन्ध भोजालमानालिङ्गा यतो वंसुषु दम्भरन्तः अंसुन्दो हन्दिभस्तिना भरित्रेर्मध्वः पुनन्ति धाराजा पवित्रेः ल कुक्षय सोमधारा समे विव्या च समा नानि अन्नागिलिन्द्रप्रथमा व्यासवृत्रम् जघन्वा तावृणीदसोमम् आदुहरमागेरे तत्परिष्ठाद् विद्माहि द्वापसोपदिम्बसो ना इन्द्र यत्ते माहीनम् तत् रमस्त्यस्मभ्यम् अस्मे प्रयङ् मघवन् रुजे षण्न्द्र राजो विश्ववारस्य भूरेः अस्मे सतम् सरो जीवसे धासे वीरा च दयिन्द्र शिप्रिन् सुरङ्गोमेव मघवानमिन्द्रमस्मिन् भरे नृतमम्बा च सातौ शृण्वन्तमुग्रमोदये समुत्सुघ्नन्तम् वृत्राणि सञ्चितम् धनानाम् मार्त्रहत्याश वा सेमृतनाशाह्याय च इन्द्रत्वा वर्धयामसि अर्वाचीनम् सुधेमनभुतचक्षुः सतक्रतो इन्द्रः कण्वन्तु बाघताः मानि ते सदक्रतो विश्वाभिर्गीर्भिलीमहे इन्द्राभिमातिशाह्ये पुरष्टुदस्य धामाभिः स्वतेन महयामसि इन्द्रस्य दर्शने धृताः इन्द्रम् रत्ना जहन्ता वे पुरुहोतमुपब्रुवे भरे शुवाच सातये जेषु सहिर्भा भक्तामी महे सदक्रतो इन्द्रभृत्रा जहन्त मे द्युम्नेषु पृथनाद्ये बृत्सदो रषस्रवसृज इन्द्रसाक्षाभिमादिषु चिन्तामन्नभूतयेद्युम्निनम् पाहि चाग्रेवीम् इन्द्रसोमम् सदक्रतो इन्द्रियाणि सतक्रतोजाते जनेषु पञ्चसु इन्द्र तानि ताव्रेणे अगन्ेन्द्रश्रवो बृहद्युम्नन्दधिष्वधुष्टरम् वृत्ते सुष्मम् तिरामसि अर्वावतो राश्यथो सक्रपरावथाः लोको यस्ते अजिवङ्ग्रेहददागाहि अभितष्ठे वदीधयाम नीषामत्यो न वाजी सुः अभिप्रियाणि वर्मृसत्पराणि कवीम् गृच्छामि सन्दृशे सुमेधाः इया तृच्छज निकवीनाम् मनो धृतः सुकृतस्तक्षद्याम् इमाभूते प्रण्यो ओबद्धमनो माता अधनुधर्मा निग्मन् यत्र गुह्यादधानाभुतक्षत्रा जरोदसी समञ्जन् सम्मात्राभिर्मभिरेजेव धर्मी अन्तर्महे स्मृते धज सेधुः आतिष्ठन्तम् परि विस्मे अभूषाञ्चयोऽवसानश्चरधिस्वरोजिः महत्तद्वष्णो असूरस्य नामा विश्वरूपो अमृता नितस्थौ असूदपूर्वा वृषभोज्यायानि वा अस्य सुरृधः सन्ति पूर्वीः जिवो रवाता विदधश्च जीभिः क्षत्रम् राजान प्रतिबो दधाति श्रीराजाने गुरूणि परिविश्वानिभूषधश्च तांसि अपश्यमात्रवनासा जघन्वा मृते गन्धर्वापि भाजुके सारन्वश्च वृणभश्च धेनो राणामभिरे सङ्गोः अन्यदन्यद सूर्या अम्बसा नानि माजिनो ममिरे रूपमस्मिन् तदन्वस्तु पितुर्न किर्मे हिरण्ययी मम तिम् जामसि श्रेत् आदुष्टुते रोदसे विश्वबिम्बे अपि भयोषादिनी वाणि वौरे युवम् रत्नस्य साधसो स्वस्ति परे गोपालिः पश्य तच्छो विरूपा विश्वे पश्यन्ति माजिनः कृतानि श्रृणम्बु वेमघवानमिन्द्रमस्मिन्भरे मृतमम्बाज सातौ शृण्वन्तमुग्रमोदये समच्छुघ्नन्तम् वृत्राणि संचितं धना इन्द्रम् मदुर्हृदा वच्चमाराच्छापतिम् या जाग्रे विर्विदधे एषस्यमानेन्द्रजत्ते जायते भिद्धिकस्य दिवश्चिदा पूर्याजायमाना विजाग्रे विर्विदधे एषस्य माना भद्रावस्त्राण्यर्जुनावसायमस्मे स रजाभिद्याधीः यमाचिरत्राजमसूदूद जिह्वाजा अग्रम्ब दता ह्यस्तात् पुंषि जातामीसुमास चेतेतमोहनाथपूषो बुद्धजेता न कीरेषाम् निन्दिगामत्येषु ये अस्माकम् वितरोगोषु योधाः इन्द्राजेषाम् द्रम् हिगा माही राभानुद्गोत्राणि सखाहयत्र सखीभिर्नवग्भैरभिज्ञासत्त्वाभिर्गानुग्मन् सत्यम् तदिन्द्रो दशभिर्दसग्भैः सूर्यम् निवेदतमासिक्षियन्तम् इन्द्रो मधुसम्भृतमुस् पद्वद्विवेदसमवनयो गुवाहितम् गुह्यम् गूढमत्सुहस्ते दधे दक्षिणे दक्षिणावान् ज्योतिर्वृणी लतमसो विजानन्नारे स्यामधुरितादभीके इमा गिरः सोमपाः सोमवृद्धजुषस्वेन्द्रपुरुतमस्य कारो ज्योतिर्यज्ञायनो अनुष्यादारे स्यामदुरितस्य भूरेः भूरे, भूरे जिद्धितो जतो मध्यस्य सुपारादो ोमेव भगवानमिन्द्र तस्मिन् भरे कृतम्बाज साधौ शिल्पङ्कमुग्रमूतये समत्स्वघ्नन्तम् वृत्राणि सञ्जितम् धनादशमनाः ओ हरे ओ वृषभम् वयम् सुते सोमे हवामहे सपाहिमध्वो अन्धसः इन्द्रकृतुविधम् सुखम् सोमम् हर्यपुरुष्कृत विषस्वदाद्रिभिम् इन्द्रप्रणोधिता वाहनम् यज्ञम् विश्वेभृद्देवेभिः तिरस्तावान विस्पते इन्द्रसोमाः सुता जिमे तपप्रयम् दि सत्पते क्षयम् चन्द्राशयिन्देवः गजिष्वा जठरे सुतम् सोमामिन्द्रपरेण्यम् तावद्युक्षास इन्देवः गिर्वणः पाहिरः सुतम् मधोर्धाराभिरजसे इन्द्रत्वादा तमिद्य साः अभिद्युम्नानी बलिन्द्रम् सृजन्ते अक्षीता वीची सोमस्य वा वृधे अर्बावतो न आगाहि परावतश्च वृत्रहन् दिवाजूडस्व नो गिराः यदन्तरापरावतमर्वापतम् च भूयसे आनरिन्द्रमजघुबालः सोमापीतये हरिभ्याञ्जाह्यग्रिवः सतोः गानस्ति स्थिरे बर्हिरारुषक अयुज्रान् प्रातरद्राजः इमा ब्रह्म ब्रह्मवाह क्रियन्ता बर्हिः सेदूरपुरोलासम् रहन्ति सव नेषु न येषु स्तोमेषु विग्रहन् मुग्धेष्विन् न गिर्वणः मदयः सोमपामृरम् दृहन्ति सप सरस्पतिम् इन्द्रम् वत्सन्न मातराः समङ्गस्वाह्यन्धसो राधसे तन्वामहे न जमिन्द्रजवो हविष्मम् तो जरामहे उद त्वमस्मयुर्वसो मारे अस्मद्विभोमुचो हरिप्रियार्वां याहिन्द्रस्त्वधा भो मत्सेह अर्वाञ्च सुखेरथेवन्द्रकेशिना धृदस्मो बर्हिरासदे उपागः सुतमागाहि सोमामिन्द्रगवासिरम् हरिभ्याम् यस्ते अस्मयो तमिन्द्रपथगागाहि परिषिष्ठाङ्गः सुतम् कुबिम्बस्य धृप्नवाह इन्द्रामिच्छा हि सोमवाच्छागुरिषिरायितः आमृते सोमा पीतये इन्दनम् सोमस्य पीतजे स्तोमयीरिहः वामहे मुक्तेभिः कुविदागमात् इन्द्रोमाः सुताजिमेतान्द्रधिष्व सतक्रतो जठरे वाजिनीवसो वसो। हि त्वा धनञ्जयम् वाजेषु दधिषङ्कामे अधारते सुम्नमी महे इममिन्द्रगवासिरम् जवासिरम् च नः पिब आगत्या वृषाभिः सृताम् तुभ्येदिन्द्रस्त्वभोक्ये एषोमम् चोदामि भीतये एकरा रन्तु देहे दे। त्वाम् भीतजे प्रतृवामहे कुशिकासो अपश्यवाह आया आयाश्चर्वामुपबन्धुरेष्ठास्तवेदनः प्रतिभस्त्वमपेयम् प्रियासखायाभिभुचोपबलिस्वाभिमेहम् यपाहो भवन्ते आयाहि भूर्वेरीदर्षणीरा हर्य आसिगुप नो हरिभ्याम् इमा हित्वा मदयस्तोमदष्टा इन्द्रहवन्ते सख्यञ्जोषाणाः आरो यज्ञम् न मोवृधम् स जोषा इन्द्र देवहवीभिर्जाहितूयम् अहम् जित्त्वा मतिभिर्जोहवीमिहृत प्राजास्वधमा आधत्त्वा मेदावृषणावहातो हरिः सखा या सुधुरा स्वनाभिङ्गः सबलञ्जुषालः सखा सख्यः क्षणभद्वन्दनारी कुविन्मा गोपाङ्कर से जनस्य कुविद्राजानम् भगवन् विजेषिन् कुविन् मर्षिम् अमृतस्य शिक्षाः आत्मा बृहन्तो हन योजानिन्द्रमादो वहन्तु रये द्विदाधिपरिजन्त्यषभस्य मूराः इन्द्रमिव मृषधूतस्य मृष्णायन्ते रेन भूषते च भारस्य मतेच्छावयसि प्रकृष्टेर्यस्य मते अपगोत्र वमर्थ शृणम्भु एव मघवा नमिन्द्रमस्मिन् भरे हृत मम्बाच सातौ शृण्वन्त मुग्रभूतये समत्सभ्रन्तम् वृत्राणि सञ्जितम् धनानाम् अजयन्ते अस्तु हरिजत सो मम हरिभिः सुदः जुषारयिन्द्र हरिभिर्नः गह्यातिष्ठ हरि तं हर्यन्नृतसमर्चयः सूर्यम् हर्यन्नरोचयः मिदिवाँश्चि गित्वाम् हर्यस्वर्धस इन्द्र विश्वाः अभिश्रियाः ज्या इन्द्रो हरिधाय संवृथिवीम् हरेवर्पसम् अधारयद्धनिदोर्भोरिभोरङ्गयोरन्तर्हरिश्चरत् निज्ञानो हरितो वृषा विश्वमाभावादिलोचनम् हर्यस्वो हवीतम् धत्तायुधमा वज्रम् बाह्वोर्हरिम् इन्द्रो हर्यम् तमज्जूतम् वज्रम् शुक्रैरभिवृतम् अपावृणोद्धरिभिरद्रेभिः सुरभूजा हरिभिराजत आ मन्द्रैरिन्द्रहरिधर्याहि मयूर रोमभिः न पाशिनोति धन्वेता बालम् वृजः पुरा धर्मो अपामजः रदस्य हृजो रभिस्वर इन्द्रो दृढाचीदारुजः गम्भीराम्बो दधीन्द्रेव क्रतुम् पुष्यसि गायैव गोपायपसम् धेन वो यशा हृदम् कुल्याजीवासत आदस्तुजम् प्रयम्फलाम् सन्नप्रदिजानते वृक्षम् पक्वम् फलमङ्कीवधूमिहीन्द्रम्पारम्बसु स्वयिरिन्द्रस्वराजिस्मद्दृष्टिस्वया सस्तरः सभावृधानभोजसा पुरुष्टु न भवा नः शुश्रवस्तमः युध्मस्य ते वृषभश्च स्वराजभुग्रस्य यो रस्तवीरस्य गृष्मेः अयोर्जो भद्रिणो वीर्या आन्द्रः सुरस्य महतो महानि महान् काशिमहिषवृष्णे भिर्धनः स्पृथग्रसगमानो एको विश्वस्य भुवनस्य राजा स योधया चक्षयया ज़्या च जनानि प्ररात्राभिरिचे रोच मानः प्रदेवेभिर्विश्वतो अप्रदीदः प्रराजादिव इन्द्र पृथिव्याप्लोरोर्महो अन्तरिक्षा दृजिषी उङ्गभीरम् जनुषाभ्यो उङ्गम् विश्व च समबलम् आदीना इन्द्रम् सोमा स प्रदिवी सुदादः समुद्रन्नश्रवदावी सन्ति यम् सोमामिन्द्रपृथिवीद्या वा गर्भन्न मातापि भृतस्त्वाय हन्ते हिन्वन्ति समूहते मृगम् तध्वर्यवो वृषभवात बाहु मरुत्वाषभोरणायपि पासो आसिञ्जस्व जटरे मद्वभूर्निन्त्वम् राजाधि प्रतिभः सुताना सजोषा इन्द्रसगन मरुद्भिः स्वम् विवृत्तः सूरविद्वान् जहि सग्रो गपमृधो न दस्वासा भजम् गृणिहि विश्वसो नः उत ऋजुभि ऋज्वाः पायि आभजो मरुतो ये त्वार्वहम् भृत्रमदस्तोभ्यमोजाः ये त्वा हि हे मनवण्णवध्वे साम् भरे हरिभोजे कविष्टौ ये त्वा नूनमनुमदम् दविप्रातुन्द्रसो मंसगानो मनुद्भिः महत्वम् तम् मृढभम्बारावृधा नवकामारीम् दिव्यम् सासविन्द्रम् विश्वासा हसे नूतनायोग्रम् स होता मिहनुभूवे हो ओ